लं दशकं कल्यता मम कुरुष्व तावती कल्यते भवदुपासनं यया स्पष्टमष्टविधयोगचयां पुष्ठयाशु तव तुष्टिमाप्नुयां ब्रह्मचर्य दृढदादिवीर्यमयके आपवादिनियमश्च पाभितो गा कुर्म केन्द्रममे सुकासना पङ्कजात्यमभिपवत्परा गां तारमतरनुचिन्त्यसन्तं प्राणवायुमभिय निर्मला गा इन्द्रियाणि विषया ददा भे बासनोल् मुको का हस्फुटे प्रभुषिदे प्रयत्नतो धारये तेन भक्तिरसमतरा द्रता उद्भे म भव विस्फोट वयव भेदरं चुचिर चेल अश्रमं मनसि चिन्तयाम के ज्ञानयो कनिरदा सदाशयो जायतां सकलमूर्ति मे दृशे वुल्मिष मधुरदाकृदात्मनां साल्त्रमोदरसरूप मातरा ब्रह्मरूप देवपासते तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक आश्रतौ पुनरदपरे श्रुता आरभे मयि च धारणादिक एमभ्यसननिर्मरो संचरे मासुक नारदाधिमते त्वत्समाधि विजये तु य पुनक मक्षु मोक्ष रसिकक्रमेणवां योगवश्यमनिलं लिङ्क दे गमभिमोर्तदक सर्तमे वकरणे निरीयते अग्निवासर बलच्च पक्षकैके उत्तरायण जोषा च प्रापितोरविपदं भवत्परो मोदवान्द्रुवपदान्तमीयते आस्थितोदमकरालये यतां चेशवक्त्रदगनोष्मनाज्ञते ईयते भवदोपाश्रयस्ततां वेदसप्पदमतः पुरैभवां तत्र प्राकृतप्रलययेति मुक्ततां स्वेच्छया कलपुरापि मुच्यते संविभित्य जगतण्ठमोजसा तस्य चक्षितिपयो मको निल यो मत्प्रकृतिसप्तकावृतीके तत्तदात्मगदयाभिसंसुके यादि ते पदमनावृतं विपो अर्चिरादिगदि मेत्रसं न भजते जगत्पते सचेदात्मक भवद्गुणो दयालम् उच्चरन्त गोविन्द नाम संयतमं गोविन्द गोविन्द पञ्चम् दशकम् व्यक्ता व्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृदप्रक्षये मायां गुणसाम्यरुदमिकृदो त्वया गदायां लयो नो मृत्युश्च तदा मृतं च समभूत् नान्को न तत्रैकस्त्वमशिष्यता किल परानन्दप्रकाशात्मनां कालकल्मगुणाश्च जीवनिबौख विस्वं च कौर्यं विभो चिल्लीलारति तेषां नैव वद सत्त्वमयि भोः शक्त्यात्मना तिष्ठताम् नो चेत् किं दधनप्रसो न सदृशां भूयो भवे सम्भवक एवं च त्रि परार्थकालविकथावेक्षां श्रोक्षात्मिकां विप्राणे तये संक्षुपे त्रिभुवने भावाय मायाश्रयो माया तत्कलो कालचक्तिरखिला दृष्टं स्वभावोऽपि च राधात्मो य गुणान् विकास्य विदधो तस्या सगाय क्रिया मायासन्निगीतो प्रविष्टवपुषां साक्षीति गीतो, गीतो भवान् वेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैव परकः कालादिप्रतिभोतिदात भवता संशोतिदाच स्वयं माया सा खलो बुद्धि तत्त्वमसृजते योऽसौ महान्च्यते तत्र सौ त्रिकोणात्मकोऽपि च मकान् सत्य प्रदानस्वयं जीवेस्मिन् कलु निर्विकल्पमगमित्युद्बोधनेष्पोदक चक्रेस्मिन् सविकल्पबोधकमघ तत्त्वां मगान् कल्पसं सम्पोष्टं त्रिगुणैस्तमोद्बुलं विष्णो भवत्प्रेरणात् सुखं च त्रिकोणक्रमात् त्रिविदताम् आसत्यवैकारिको भोयस्ते दशतामसं यदि भवान् आद्येन सत्त्वात्मना देवान् द्रियमानिनो क्रद दिशा पातार्कपाच्विनो महेन्द्राचोदमिन्त्रकान् ी रुद्रशारीरकाल् नोमल् मानसभोद्यका कृति मिल्चित्ताख्यवृत्तं वृतौ तच्छान्तःकरणं विभो तव बलात् स त्वां च एव सृजन् चौदस्ते जसदो दशेन्द्रियगणक तत्तामसां चात्पुनक तन्मात्रं नभसो मरुन् पुरपते शब्दो जने तद्बलात् शब्दात् नो मां स्पर्शं ततो मारुतम् तस्माद्रोपमतो महोदचरसं तोयं च गन्धं मह्यं एवं माधवं पूर्वपूर्वकलनात् आध्यात्मन्मान्विता बोधग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात्त्येते बोधगणास्तते न्यगणाका देव श्च जाता प्रदज्ञे नो चेण्भुवनाण्डनिन्मेधमेदो देवै रमे बेस्तदा त्वं नानावेदशोक्ते बे नोद गुणकत तत्त्वान्यमोन्याविषण् ज्येष्ठा शक्तिमुदेतान् निघटयन् हैरण्यमण्डं यताका अण्डं तत्कलो पूर्वश्रष्टसलिले तिष्ट सघर्षं समाका निर्मितनकृ दाच जगत्रूपं विराटक्वयो साकश्रैकरपादमूर्तनि बकैके निःशेषजीवात्मको निर्भतो से मरुत्पुराधिप स सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द <coughs> आराम दशकम् एवं चतुर्दश जगान्मय तां गदस्य पातालमीश तव पादतलं वदं ते पादोर्ध्वदेशमभिधेबरसतलं ते कुल्पद्वयं खलु महातलमल्बुधात्मने जङ्गे तलतलमुदो सुदलं च जानो किञ्चोरपागयुगलं विदलदल ते क्षोणीतलं जगनमम्बरमङ्गनाभिके वक्षश्च चक्रनिलयस्तव चक्रपाणे ेवो मगस्तव मुखं च जनस्तभस्तो बालं चिरस्तव समस्तमयस्य सत्यम् एवं जगन्मय धनो जगदाश्रितैरपि अन्ये निभत्तव मुषे नमस्ते त्वल् ब्रह्मरन्त्रपदम् ईश्वरमेश्व चैथांसि केशव गणास्तव केशपाशां उल्लासि चिल्लियुगळं त्रिगणस्य के गा पक्ष्वाणि रात्रि देवसौ सविता च नेत्रे निशेषविस्तर च नाचकट मोक्षक कर्णो दिशो शयुकलं तव नासिके त्वे लोभत्रवे च भगव अदरोत्तरोष्टो तारगणश्च रदनासमनश्च दंष्टं मायाभिलासकसितो ससितं समीरो येक्वा जलम वचनमे च च कुन्तपङ्क्तिकें सिद्धादयश्वरगणा मुकरण्मग्निकेम् देवा भोजास्तनयुखं तवदमदेव पृष्ठं त्वधन्म इक देवमन सुदां शुको अव्यक्तमेव हृदयं भोजमं भोजाक्ष कोक्षे समुद्रनिवका चे प्रजापतिरसौ वृषणौ च मित्रकं श्रोणीस्थलं नृककणापयो नकस्ते हस्त्योष्टसैवमुख गमनं तु कालक विप्रातिवर्णभवनं वदनां च बागोचारो रो योक्मचरणौ चक्रधर क्रियास्ते रो ते च लो नाट्यस्सरिस्समुदयस्तरवश्चरो मयि यातिता बभुरनिर्वचनीयमीश एतृग्जगन्मय वपुस्तव कन्म वचां कन्मा भसवनसमये स्मरणीयमकु को तस्यान्तरात्मबुषे मिमलात्मने ते पातालयाधिप नमोऽस्तु निर्निरोकान् सर्वत्र Govinda namangetanam Govinda Govinda Kiaram dashakam evam deva charod dashatma jagat ropeena yathappuna kan tasya rtam kalom satya loganilaye जतोऽसि दाता स्वयो यं सं हिरण्यगर्भमखिलत्रैलोक्यजीवात्मको यो भोऽस्मि जो विकार विघसन्नानासि सृष्ठारसक सोऽयं विश्वविसर्गदत्तकृदयख सम्पश्यमान स्वयं बोधं कल्पनवाप्य विश्वविषयं चिन्ता कुलस्तस्ति वा तावत् त्वं जगतां पतें तप तपें गेपं कियसीं वाणीं येन मशि श्रभश्रुति सुखां पूर्वं कोऽसौ मामवत् पुमानितें जल पूर्णे जगन्मण्डले देशोद्मेक्ष किक्षितवता वाक्यार्थमुत्पश्यता दिव्यं वर्क्षसघर्मातपसा तेन त्वमारोतिदकः तस्मै दर्शितवान् से स्वनिलयं वैकुण्ठमेका मायां यत्र कदापि नो विकुरुते पादे जगज्ञो शोक्रोधविमोगसत्त्वसमुखाका बाबास्त्वदोरं गता का सान्त्रो नन्दरी च यत्र परमज्योति प्रकोषोत्मके दत्ते दाम विपापितं विजयते वैकुण्ठरूपं विभो यस्मिन् नाम सुदुर्मुजाका हरिमणिश्यामा वद दृशो नानापोषणरत्नदेपि ददृशो राजतिमानालयाका भक्तिं प्राप्त तदापि दोन्नतपताङ्कं दिव्यंति दिव्यजनाका दे दामनिरस्तसन्धशमलं वैकुण्ठरूपं जयेत् ननां दिव्यवदोजने जनेरभिमृतां विद्युल्लता तुल्यया विश्वोन्मादनकृत्य कात्रलतया विद्योदिता शान्तरा तत्पादाम्बुज सौरभैककुदुकान् लक्ष्मी स्वयं लक्ष्यते यस्मिन् विस्मयनेयदिं व्यभिपवाम् ते पदं देहि मे तत्रैवं प्रदिदर्शिते निजपते रत्नासनात्यासितं बास्वत्कोटिलसल् किरीटकटकवत्याकल्पते प्रकृतिं श्रीवत्साङ्गितमात् कौस्तुभमणिच्यायारुणं कारणं विश्वेषां तव रोपमैषदविधिके तत्ते विभो पादुमे कालम्बोधकलाय कोमलरुचिचक्रेण चक्रं दिशा आवृवाणमुदारमन्तकसित शप्रसन्नानो राजकम्बुगदारे पङ्कजधर श्रीमद्भुजमण्डलम् स्रष्टुस्तुट्टिकरं वपुस्तव विभो मात्रोगमोत्पासयेत् दृष्ट्वा सम्प्रदसम्प्रमकमलमोखो तत्पादपातो हर्षावेशवशं पदो निपतितः प्रीत्याङ्कृर्थे भवन् जानात्येव मनीषिदं मम विपो ज्ञानं तथा पादय भजे आदाम्रे चरणे विनम्रमततं हस्ते न हस्ते बोधस्ते भविता न सविधिके बन्धोऽपि सञ्जायते एभाषकिरं प्रदोष नितरां कच्चित्तकोडस्मयो स्रष्टौदं समुदैरयत्स भगवन् उल्लासयोल्लागता सर्वत्र गोविन्द नाम सङ्कीर्तनं गोविन्द गोविन्द यट्टं दशकम् एवं दावत् प्राकृदप्रक्षयान्ते ब्राह्मे कल्पे इत्यादि मे लब्धजन्मा ब्रह्मा मूयस्तत्मये वाप्यवेदान् सृष्टिं च क्रय पूर्वकल्पोपमानां सोऽयं च ताव मेधाश्चरजनेर्बघुशो निनाय निद्राद्यसौ त्वयि निलीय समं स्वसृष्टैयें नैमेत्तेह प्रलयमाकुरतोऽस्य रात्रिम् सृष्टिं करोत्यनुदिनं सपभवत् प्रसातान्ते प्रभ्रामकल्पजनुषां च परा युशान्तो शुभप्रबोधनसमादि एकं परार्तमदि भृत्यगि तत्रान्ध्यरात्रिजनितान् कथयामि बोमळ पश्चात् दिनावधरणे च भवद्विलासान् दिनाभाने त सरोजयोनिके चषोक्तिकामस्त्वयि सन्निल्ये जगन्धि चत्वजठरं समेयको तदेतमेक नवमासमिष्वां तवै भवेशे मणिराजिशेषे जलैकशेषे भुवने स्म शेषेम् आनन्दसान्त्रानुभवस्वरूपक स्वयोगनिद्रा परिमुद्रितात्मा कालाख्यशक्तिम् प्रलयावसाने प्रबोदये त्या दिशत किल त्वया प्रशुब्धा परिशुब्धशक्तिं व्रजेन् तत्र किल जीवधाम्ना चतुर्युकानां च सदश्रमेपं त्वये प्रशुब्ते पुनरद्वितीये कालाख्यशक्ति प्रथमा प्रबोध किल विश्वनाथ विभो त्यचत्मा जलगद्भषौ ने विलोक्य लोकान् अखिलान् प्रलीनान् देष्वेव सूष्मात्मदया निजान्तस्ति तेषो विश्वेषो तदा दृष्टिं तदस्त्वदीयात् अयिनाभिरदात् उदञ्चितं किञ्चन दिव्यपद्मं निलीननिःशेष पदार्थमूला लनं तदे दतम्बोरुघकुड्मलं ते कले परातो यपदे प्ररुढं भगिनिरितं परि दस्फुरद्मिगे स्वतामभिद्वान्त्वमलन्त सम्पुल्लपत्रे निदरां विचित्रे तस्मिन् भवद्भिकृते सरोजे सबत्मजल्मा विधिराभिरासेत् स्वयम् प्रबोत्ता किल मेधराशिके अस्मिन् परात्मा ननुपात्मकल्पे त्वमेत्तमोत्थाविदमयोनिके आनन्द बोमा मम रोगराशिं निरुते मादालय वा वास विष्णो सर्वत्र गोविन्दनाम सङ्गीर्तनं गोविन्द गोविन्द <coughs> दशकमुम्बोदतितः स कमलोद्भवकं तव यिनापि पङ्केरुके कोदस्मिदितमम्बोदौ उदितमित्यनालोकयन् तदेक्षणकुदोकलात् प्रदिशं विवृत्ताननक चतुर्वदनतामकात् विकसादष्टदृष्ट्यं भुजा मकोण मी कोल् नं कमलमे बेबलो विलोक्य तदुपाश्रयो तवदनन्दो नालोकयन् कयेशकमलोदरे मगदिनिस्तोक्यगो कुदस्मिदितमम्बुजो समजनीतिचिन्तमकात् अमुष्यजि सरोरुकरं का किमपि कारणं सम्भवेत् इति स्म कृ nishchaya ka sagal nalaran draatmanaa स्वयोगबलविज्ञया समवरोढवा प्रौढतेः त्वदीयमधिमोकनो नधुकळे वरं दृष्टवान् तदः सकलनालिका विवरमार्ग गोमार्गयाण् प्रयस्य चदवल्सरों किमपि नैव सदृष्टवान् निवृत्यकमलोदरे सुखनिषर्णयेकाग्रजे समाधिबलमादते भवदनुग्रहे कग्रहे शतेन परिमल्सरेः दृढसमाधिबल्तोलसदे प्रबोधविशदे कृदक सकल पत्मिनीसम्भवक अदृष्टचरमद्भुतां तव गिरूपमान्द्र दृशाभ्यचष्ट परितुष्टुजगभोगाकाशयु दे। गिरीकमघटोलस देवं खडककारकेयोरयु मणिष्पुरि तमे कलो सुपरित पीताम्बरो कलाय कुसुमप्रभा गलो लौ सुपो वपो सदाये भये कमल जलमने दर्शितौ श्रुतिप्रकर दर्शित प्रचुर वैभव श्रीपते हरे जय जय प्रभो पदमुपैष दृष्टृशोको कुरुषति यमासुमे भुवननिधौ कन्नटा यदिन्द्रुगिणवर्णिद स्वगुणपङ्कि मां पाहि मां लपस्व भुवनत्रये रसनदक्षतामक्षताम् ृकाणमदनुग्रहो कुरु तपश्च भोयोविते भवत्त्वकिलसोदने मयि च भक्तिरत्युल्कटे तु दीर्यकिरमादताका मुदिदचेदसंवेदसं चदं कृद तपस्तदकं सकलु दिव्यसंवल्सरामे अवाद्य च तपो बलो मदिपलं च पूर्वदिकौ उदिक्ष किलकम्पितां पयसि पङ्कजम् वायुना भवद्बलबिजृम्बिदग पवनपदसि पीतवान् तवैव कृपया पुनः सरसि जिन्न तेन्नैव सग प्रकल्प्य भुवनत्रये प्रवृते प्रजा निर्मितो तदा विधकृपो भरो गुरुमरुत्पुरोधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरेक्षितैः सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द पतं दशकं वैकुण्ठवर्ति दलोद प्रसादात अम्बो जयोरसृज किल जीवदेकाल् नो नियानि तदातिर जातिर् मनुष्यनि भगवन् अभिदे भवेताल् न मिद्याग्रकास्मि मदिराकविपो भेति के अज्ञानवृत्तिमेदि पञ्चमेदांसृष्ट्वा उत्तामतामसपदार्थविदानदोनक तेने त्वदीयचरणस्मरणं विशुद्धे तापः सज्जमनसा सनकं सनन्तं भूयः सनातनमुनिं च सनत्कुमारं ते सृष्टिकल्मणि तु तेन नियोज्यमानाका तत्पादभक्तिरसिका जघृकुण्णवाणी तावत् प्रकोपमुदितं प्रधिरुन्धतोऽस्य ब्रूमात्यदो जनिडो भवते गते शख नामानि मे गुरपथानि चखाभिरिञ्चेते आदौ रुरोद किल ते न स रुद्रनामा एकादशायदया च रुद्रं विदाय दहिता वनिताश्च दत्त्वा कावन्त तत्त च पदानि भवल् प्रणुन्नक प्राक् प्रजा विरचनाय च सादरं प्रजा सृजतवच्चरमङ्गलायते आचार षष्ट कमलपोर्पवति हृदात्मा तस्यादशरसिकश्च मरे चिरभृके तत्रागिराक्षदमुनि पुलक पुलस्त्य अङ्कादजायत भृकुश्च वसिष्ठदक्षो श्रीनारदश्च भगवान् भवदङ्ग्रिदासख धर्माधिकान् अभिसृजल् न दगर्दमं च paṇim bedāya vidiraṅkaja saṅkolodute तैश्चनगदक्षमुखैस्तनो जे उत्पोधितश्च विररामतमो विमोचन् भेदान् पुराणनिवखान् अभिसद्भवेद्याका कुर्वन् निजाननगण चतुरानोऽसौ पुत्रेषु तेषु विनिदाय स सर्गवृद्धिम् अप्राप्नुवं स्तव पदाम्बुचमाश्रुतो भुन्त् नुपायमददेकमजो विभज्य श्रीपुंस भावमभजन् मनुतत्वधूप्यां धाप्यां च मानुषकुलानि विवर्धयन् स्वां गोविन्द मारुदपुरे च निरतिरुकान् सर्वत्र गोविन्दनाम सङ्गीर्तनं गोविन्द गोविन्द <coughs> अदुनोरां दशकं क्रमेण सज्ञें परिवर्धमाने कथाविदिव्यासनकदयस्ते भवद्मेलोकाय विकुण्ठलोका प्रपेदिरें मारुतमल्तिरेष मनोज्ञैशे यशगाननाद्यैके अनेकवणिमल्तिरैश्च अनोपमं तं भवदो मुनीश्वर प्रापुरदीदकक्षां भवद् जत्रोक्ष भवनं विवक्षु ण त्वास्तौ जयस्तान् विजयोऽभ्यरुन्दां तेषां च चित्ते पदमापकोपकः सर्वं भवत्प्रेरणयैव बोमल्न वैकुण्ठलोकानुचितप्रचेष्ट कष्टो युवां दैत्यगतिं भजेतं हेदे प्रशाप्तो भवदा श्रयोदो हरिस्मृतिर्नोऽस्ति दिने मदुस्तान् तदे ददा ज्ञाय भवानवप्तक सखै बलक्ष्म्या भगिरम्बुजाक्ष गेश्वरां सार्वेदचारु बागको आनन्दयं स्थान अभिरामूर्त्या प्रसाद्य कीर्तिस्तु वदो मुनीन्द्राने अनन्यनाथा वद पार्षदौतो सम्ब्रह्म योकेन भवे त्रिभिन्मा उपेद े त्वदीयभ्रत्या वदकाश्यपातो सुरारिवेराबुदितो तिरोतो संख्या समुत्पादनकष्टचेष्टो यमौ च लोकस्य निजवासनन्दो तयोर्किरण्या क्षमकुरेन्द्रोयं धावन्नानवाप्तवैरे भवत्प्रियां क्ष्मां सलिले निमज्य चचार गद्वात् तदो जले सा चतुशं भवन्तं निशम्यभप्रामगवेषय स्वां भक्तैकतृश्यस्य स कृपा कान, कान सर्वत्र पशकं वरगव पूर्ूनो र पणं स्वयं भो मनरतो जनसर्गशीलो द्रष्टा महीम् असमये सलिले निमग्नां स्रष्टारमापचरण भवदङ्ग्रिसेवा मुनिजने मुनिजनैः सहसत्यलोके कष्टं प्रजाश्रजति मय्यवनिर्निमग्ना स्थानं सरोजभव कल्पय manana no sayam bhogo ambo rhaaksha tava podai gambhya cintete akha vibho जलमगम्यबिबं पुरस्तात् अद्याभि मज्झतिमहे किमकं करोमि एतं तदङ्ग्र्युकलं चरणं यतोऽस्य नासा पुटात् समभवशिशुकोलरूपे पङ्कुटमात्रव पुरतः पुरस्तात् भूयोधकुम्भेशदृचः समशृम्भतास्तम् प्रे तदा विदमुदेश्य भवन्तमुच्चय विस्मेरतां विधिरकासगसो नु विस्मै कोसा वचिन्त्यमहि मा किडिरुत्थितो मे नासा पुठात् किमु भवेदति तस्य माया एतं विचिन्तयदि तादरिशैलमात्र सद्यो भवन् किलं जगर्जिदघोरघोरं तं ते सत्यस्ति दाश्च मुनयो नुनवन्त तस्सोस्रहर्षुलमनां परिणध्य मोयक तो याशयं विपुलमूर्तिरवादरस्ताम् ऊर्ध्वप्रसारे परितोम्रवितो मुखोरघोणक तोर्णप्रदीन जलद परिकोर्णदक्षणा सहस्रोन्मुने चिचिरयल् नवते अन्तर्जलं तदनुसङ्कुलनक्रचक्रं प्राम्यतिमिङ्गिलकुलं कलुषोर्मिमलम् आविश्यभीषणरवेणरसतलस्तान् आखम्बया वसुमती अगवेष्ट Right, yes, Tom. Oh. दृष्ट्वा दतैत्यगदके नरसौ कलान्ते संवेचितां जडिनि कोटकेटिन् विभो त्वम् आपादुकान् अभिकर्णय्य सुराजिकेटान् दंशाङ्गुरेण वसुधाम् अदतः सलीलम् अभ्युत्तरं न दधरां इव इवाधिकपि परात्मा सलि लज् जलति रुदं जन क्रेता वर कव पुरे शरपगिरो काते हिरण्याक्षन्तापदे वरद भवदवेणपरा चरन्तं सामर्थ्ये पयसे निज परिमिते भवद्भक्तो कबडपडुके नारदमुनिके चने रुचे नन्दनुजमपे निन्दं स्तव बलं समायोमे विष्णु हरते भवती यां वसुमतीं प्रभो कष्टं कष्टं किमिदमिति ते नापि गदितत् नदं क्वांसो क्व सा विते समुनिना दर्शितपद भवतं सम्प्रापद धरणि धर मोद्यत मोदकाद् अक आरण्यो यो मृगयिते असन्त भगोतरैके दुरुक्तिर्विद्यन्तु तिधि सुधमवज्ञाय भगवान् महें दृष्ट्वा दंशां चिरसि चकितां स्वेन मगसा पयोतावाधाय प्रसवमुदयन्त मृदमितु कथपाणौ दैत्यम् त्वमभिगृहीतोन्नदगतो नदगतो क्रीडन् घटघटरवोत्कोष्ठमियता प्राणालोकं सुख्यान् मिलति सुरसंज्ञे दृतमो निरचोदकः प्रथममिति धात्र जगदीशे कदोल्मटे तस्मृ तव खलु गदायां तिदि भुवो गदा, गदा गादाद् भोमौ जडिदिपतितायां हगगभोः मृदु स्मेरास्य स्वां धनुजकुलनिर्मूलनचणो मकाचक्रं स्मृत्वा करभुवे ददा तदशूलां कालप्रदिमर्षिदैत्यं विसृजते त्वयि करकलिदचक्र ते करकलिदचक्रप्रकरणात् समारोष्टो मोष्ट्यां सकलविदुदं स्वां समदनोत् कलन् माये तहि किल जगन् मोकन करि गी भवचक्र ज्योतिष्कणलवनि पातेन विदुते तदो मायाचक्रे विददघन रो शान्तमनसो करिष्ठो बिघे मोष्टे प्रकृतिभिरभिमसुरो कर कृणस्वेन श्रवणपदमूले निरवति हीं मकायसो तव करसरोजप्रमोदितो कलत्रक्तो भक्त्रात् अबदृशमे श्लाघितगति तदा त्वामुदाम प्रमदपर विद्योतिकृतया कुनेत्राभिगे तुलिपिरनो वल्लत्वरदनो त्वचिचल्तो भस्म पें कुचकनसक्षुषिकृदो चदोर्कोदरों क्रो सृगविवदने चोदरेड खा जिह्वा यां ते परपरुषकर्णे च चमसाखा विभ सोमो मोरे द्रे रे्या सभना मोकरे मोदित मनाका स्वदेष्ट्यं सम्प्राप्तक सुखरसविखोरि मधुरिपो निरुचारोकं मे सकलमभिवात लयपते सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द पदिनां दशकं कपिलोपचारं पदनो शेन्दुपडिकणं समनु <laughs> स्मृदतावदाङ्ग्रेक्म समनुपङ्गजसम्भवो गजं निजमन्तरमन्तराय चरितं ते कथयं सुखं निनाय समये धृधसर्गरसोनिसर्गरं यो भगवं स्तोमयुतं समोऽस्य गरुडो बरिकालमेघकम् रां विलसेळि सरोजपाणिपद्मा हसितो लसितान विभोत्वा बपुरविष्कोरुषे स्म कर्दमाय सुवदे पुळकाव्रताय तस्मै मनपुत्रीं दयितां नवाभिपुत्रीं खें कपिलं च सुदं स्वमेव पश्चात् स्वकतिं चाप्यनुक्रे त्य गतोपोङ्को समनोषदरोपया मघिष्यां गुणवज्ञा सुदया च देवकोत्यं भवदीरितनारतोपदिष्टकं समगममागदे प्रदेक्षं मनुनो बकृतां च देवकोतिं भवदर्चन निर्व्रतोऽपि तस्याम् प्रणसूषु षणयत तो प्रसा सपुन सदपासन प्रभाते नयिता काम कृदे कृनिता कुल संकुलो नवात्मा जगरेव पते श देव्या सदा वर्ष मद यदेक्य सो हृद कृत्वज्जनोस कोन्यवासेत् निज भर्तृके राभवन् निशे वा निरताया मददे वदे भगोत्यां कपिलस्वमजायत जननादये परमात्म तत्त्वविद्यां वनमे यशे गर्दमे प्रसन्ने मद सर्वस्त्वमुपादि कपिलात्मकवायुमन्दिरे च त्वरि त्वं त्वं परिपाकि मां गदौ गात् मदिरिगगुणसक्तां बन्धकृष्मेश्वसक्ता त्वमृद कृदुपरुडे भक्तियोगस्तु शक्तिं मगधनुगमलव्यां भक्तिरे भद्रसाद्या कपिलधनुदि त्वां देवकोचे ज्ञगोतिः प्रकृतिमगधकङ्काराश्च मात्राश्च भूतान् न्यभिकृदभिदक्षि पोरुष पञ्चविंशक विधि विधिदपि पापो मोक्षते सकृत्या कपिलनो रे देतो देवकोके नगे प्रकृति गदा गुणौ गे जते पौरुषोयं यदि तु सजति तस्य तद्गुणास्तात् मदन भजन तत्त्वा लोचनैः साप्यपेयात् कपिलधनुर्देत्व देवकोट्ये न्यगदेहे हिमलमजे रोबात्यैः आसनाट्यैन्मदङ्गडसमधि रूडो दिव्या गोषायुताङ्गचितुलिततमाला ता शीलये तानुबलो कपिल धनु रे देतो देवकोचैन्यकादि मम गुणगणलीला कण्डने कीर्तनाट्ये मयीसुरसरि दोग प्रत्यचित्तानुवृत्तिः भवति परमभक्तिः सागी मृत्योर्विजेत्रे कपिलधनुर्दे त्व देवकोट्ये न्यगदेकी अखकबगुलिंसा सञ्चितो टेङ्कुडुम्बो प्रतिदिनमनुपोष्ण सृजितो बाललाली विशदिग्रकसक्तो योतनां मय्य भक्तग कपिलधनु हृदयत्व देवकोट्ये न्यगदेके युवतिजा जादबोधोऽप्यकाण्डे प्रसवगणित बोधग पीडयो लङ्घ्य पाल्यो पुनरभिपदमुख्यत्येव तारुण्यकाले कपिलधनुदेत्वं देवकोचेण्यकादिये पितृसुरगणयोजे धार्मिको सचनि सचनिपदति काले दक्षिणाद्वोबकामि मयिनिहितमकाम कर्मदो तत्पथार्थ कपिलधनुरृदितो देवकोद्य ज्ञगातेः इति सुविति तवेद्यां दे दे देवके देवकोतिं कृदनो दिमनुगृह्य त्वं गतो योगिसङ्गैः विमलमधिरतो स भक्तियोगे नमो क्ता त्वमभिजनयितार्ता वर्तसे प्राकृते च परम किमुभकृत्या त्वत्पदाम्बोजभक्ते सकलभयविनेत्रे सर्वकामोपनेत्रे वदसि कलदृढं त्वा त्वत्मिदूयां मया मे गुरपवनपुरेश्योपादस्त्व भक्ते सर्वत्र पदिनारां दशकं नर नारायण अवतारं दक्षोभिरञ्जतनयेषु मनोत्तनो च लब्पा प्रसूदि मेघोडचापकल्यौकां दन्मे त्रयोदश ततो पितृषुस्वदां च स्वकां भवेजे सतीं गिरिशे त्वदं से मूर्ति दृहिणे सुषुभे भवन्तो नारायणं नरसकं मगितोनुभोगं यज्जन्मनि प्रमुदिता कृदो जगोषाका पुष्पोत्करान् प्रभवृषो नोत्सुरौका दैत्यं सहस्रकवचं कवचै परीता सागस्रवत्सरतवत् ै पर्यो यन्मिद तपःसमरौ भवन्तो चेष्टैकङ्कटमम न्यगतां सलीलम् अन्धोचरन् उपदिशन्न विमोक्षद मां त्वं भ्राधृमान् बदरि कौशमध्यवसे हे चक्रोत ते शमतपो बल निःसगात्मा दिव्याङ्गना परिवृतं प्रजिकायमारं काभो वो बस टाक्षमिशिके मिगस द्विलासे विद्या मुको मुकुरकम्पमुदेक्ष चत्वां बेतस्वयोत जगत् मृदुका स भाजा बेचालमङ्कज वसन्तसुरघना वो मन्मो नृगजोषो त्वमिदे ब्रमोणक त्वं विस्मयेन परिदस्तु वदामेषां प्रादक्षय स्व परिचारक का दराक्षे हे सम्मोकनाय मदनादयस्ते परिमले किल मोखमापोको दत्तां त्वया च जग्रकुस्रभयैव सर्वसि गद्भशमने पुनरुद्वशें त्वां दृष्टोर्भें तव कथां च निशम्यचक्रक् पज्ञाकुलो जनि भव मयि मा भात् एवं त्वत् ोऽधिको वरद कृष्णधनुस्त्वमेव दक्षस्तु धातुरतिलया रजन्तो नाच्यो धृतस्त्वय च कष्टमशान्तिरसीत् येन व्यरुण्डस भवत्तनुमेव सर्वं कृते समर्धितमगः सदुकृतचेश पुनराशान्ति सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्द अभि पे दशकं ध्रुवचरित्रम् नृपदे मनुनन्दनस्य ज्ञाया बभोवचुरुचिर्निदरामभीष्टाम् अन्या सुनीतिरिधि भर्तुरनाधृता सा त्वामेव नित्यमगधि शरणं गदाभोत् अङ्के पिदु चुरुचि पुत्रगमोत्तमं तं दृष्टा द्रुव किल सुनेति सुतो तिरोक्षणे आशिक्षिपे किल चु सुधरां चुरुचा दुस्सत्यजा खलु भवति मुखै त्वो गिते पितरि पश्यति दारवशें दूरं दुरुक्तिनिग सगतो निजाम्बां स विश्वकल्मकधिसन्तरणपुंसां त्वत्पादमेव शरणं चिचवे सशंस आ कण्यसोऽपि भवदर्चन मानिरेत्य न करात् किल पञ्चवर्षकं संदृष्टनारद निवेदितमन्त्रमार्गक त्वामारराध तपसा मधुका न ते ते भिषण्तये नगरीं गतेन श्रीनादेन परिशान् द्विदचिन्त मृत्त्वा बालस्तदर्मितमनाक्रमवर्तितेन निणे कठोर तपसा किल पञ्चमासान् तावत्तपोपलनिरच्छ्वसितेतिघन्ते दे वार्तिद समुदयद् करुणार्त्र शेताका त्वत्रोपचित्रसनिली नमते पुरस्ताद् आविन् बभोविभो गरुडादिरोडक त्वद्दर्शनप्रमद भारतरङ्गितं तं त्रिभ्यां निमग्नमिवरो परसायने ते ष्टोषमानमवगम्य कपो लदेशे संस्पृष्टवानसि धरे न तदा धरेण तावत् प्रणवन्तमेन आपाषदा राजं चिरं समनुबोयभजस्वबोयख सर्वोत्तरो द्रुवपदं विनिवृत्तिहीन येत्योचोषित्वनोऽसौ आनन्दिता किल जनो नगरे मुपेतक प्रेमे चिरं बभधनोपोर्णकामख ताते का। गते च वनमातृदराज्यभोरक यक्षेण देवनिगते पुनरुत्तमेऽस्मिन् यक्षै स योद्धनिरतो विरतो मनुङ्ख्या शान्त्या प्रसन्न कृतया धन दाधोपेथात् त्वद्भक्तिमेव सुदृढाम् अवृणोर्मखात्मा हन्ते भवत्पुरुष नेतभिमो नयोदत् मात्रा समं ध्रुवपदे मोदितो लोलदेष्ट वातालयाधिपं निरन्दिममामयौकान् सर्वत्र गोविन्द नाम गोविन्दा गोविन्द <laughs>